गिरिनन्दिनी नन्दित मेदिनी विश्वविनोदिनी नन्दनुते गिरिवरविन्ध्य शिरोधिनि वासिनि विष्णुविलासिनि जिष्णुनुते भगवति हे भूरी भूरिकुटुम्बिनि भूरी कृते जय जय हे महिषासुरमर्दिनि रम्यकपर्दिनि शैलसुते वर्षिणि दुर्धर धर्षिणि दुर्मुखमर्षिणि हर्षरते त्रिभुवन पोषिणि शङ्करतोषिणि कीबिषमोषिणि घोषरते धनुजनि रोषिणि भीतिसुतरोषिणि दुर्मद शोषिणि सिन्धुसुते जय जय हे महिषासुरमर्दिनि रम्यकपर्दिनि शैलसुते अयि जगदम्बमदम्बकदं भवनप्रियवासिनिभा शरदे शिखरि शिरोमणि तुहिमालय शृङ्गनिजालय मध्यगते मधु मधुरे मधुकैटव भञ्जिनि कैटभञ्जिनि रासरते जय जय हे महिषासुरमर्दिनि रम्यकपर्दिनि शैलसुते शतखण्ड विखण्डितरुण्ड वितुण्डित शुण्ड पराक्रम शुण्ड मृगाधिपते निज भुज दण्ड निपातित खण्ड भडाधिपते जय जय हे महिषासुरमर्दिनि रम्यकपर्दिनि शैलसुते ऐरणदुर्मदशत्रुवधोदित दुर्धर निर्जर शक्तिभृते चतुरविचारधुरीण महाशिव णागत वैरिवधूवर वीरवराभयदायक रे त्रिभुवनमस्तक शूलविरोधिचिरोधि कृतामलशूलकरे दुमि दुमितामरदुन्दुभिनादमहोमुखरी कृत तिमकरे जय जय हे महिषासुरमर्दिनि रम्यकपर्दिनि शैलसुते अयि निजहुंकृतिमात्र निराकृतधूम्रविलोचन धूम्रशिखे समर वि शोषित बीज समुद्भव शोणित बीजलते शिव शिव शुम्भरि शुम्भमहाहव तर्पित भूत पिशाचपते जय <makeslee> जय हे महिषासुरमर्दिनि रम्यकपर्दिनि <smart शैलसुते <formally> <smartquet> नुसङ्गक्षण सङ्ग परिस्फुरदङ्गनटत् कटके कनकपिशङ्ग पृषत् कनिशङ्गरसद्भट श्रुके कृतचतुरङ्ग बलत् क्षितिरङ्ग घटद् बहुरङ्ग बलत् जय जय हे महिषासुरमर्दिनि रम्यकपर्दिनि शैलसुते जय जय ज्य जय शब्द परस्तुतितत्पर विश्वनुते फण फण भिञ्जिनि भिङ्कृत नूपुर सिञ्जित मोहित भूतपते नटित नटार्थनटी नट नायक नाटित नाट्य सुगानरते जय जय हे महिषासुरमर्दिनि रम्यक पर्दिनि शैलसुते सुमनस् सुमनस् सुमनस् सुमनस् सुमनोहर कान्तियुते श्रितरजनी रजनी रजनी रजनी रजनी करवत्रवृते सुनयनविभ्रमर भ्रमर भ्रमर भ्रमर भ्रमराधिपते जय जय हे महिषासुरमर्दिनि रम्यकपर्दिनि शैलसुते सहितमहाहमल्लमतल्लिकमल्लितरल्लकमल्लरते विरचितवल्लिकपल्लिक मल्लिक भिल्लिक भिल्लिक वर्गवृते सितकृतफुल्लसमुल्लसितारुणतल्लजपल्लवसल्लिते जय जय गे महिषासुरमर्दिनि रम्यकपर्दिनि शैलसुते लगण्डगलन् मदमेधुरमत्तमतङ्गज राजपते त्रिभुवन जय जय गे महिषासुरमर्दिनि रम्यकपर्दिनि शैलसुते <Sucks> <-tree> कमलदलामलकोमलकान्तिकला कलितामलफालते सकल मिला सकलानिलय क्रमकेलि च तत्कलहंसकुले अलिकुल सङ्कुल कुबलय मण्डल मौलिमिल बकुलालिकुले जय जय हे महिरासुरमद्दिनि रम्यकपद्दिनि शैलसुते ीजित कूजित लज्जित कोकिल मञ्जुमते मिलित पुलिन्द मनोहर गुञ्जित रञ्जित शैल निकुञ्जगते निज गुणभूत महाशबरी गण सर्गुण केलितले जय जय हे महिषासुरमर्दिनि रम्यकपद्दिनि शैलसुते कटितटपीतदुकूलविचित्रमयूख तिरस्कृतचन्द्ररुचे प्रणतसुरासुरमौलि मणिस्पुरदंशूल सन्नखचन्द्ररुचे जितकनकाचलमौलिपदोर्जित निर्भर कुञ्जर कुम्भकुचे जय जय हे महिषासुरमद्दिनि रम्यकपर्दिनि शैलसुते तारकसूनुसुते सुरथ समाधि समान समाधि समाधि समाधि सुजातरते जय जय हे महिषासुरमर्दिनि रम्यक पर्दिनिश्चैलसुते कमलं करुणानिलये परिवस्थियोनुदिनं स शिवे अयि कमले कमलानिलये कमलानिलयः स कथं न भवेत् तव पदमेव परं पदमे मनुषी लयतो मम जय जय जय हे महिषासुरमर्दिनि रम्यकपर्दिनि शैलसुते कनकलसर्कलसिन्धुजलैरनु सिञ्चिनुते गुणरङ्गभुवम् भजति स किं न शचीकुचकुम्भतटी तव चरणं शरणं करवाणि नतामरवाणि निवासि शिवम् जय जय हे महिषासुरमर्दिनि रम्यकपर्दिनि शैलसुते ुमलं सकलं ननुकूलयते किमु सुमुखी सुमुखीभिरसौ विमुखी क्रियते मम मतं शिवनामधने भवति कृपया किमुत क्रियते जय जय हे महिषासुरमर्दिनि रम्यकपर्दिनिशैलसुते अयि मयि दीनदयालुतया कृपयैव त्वया भवितव्यमुमे आई जगदो जननी कृपयासि यथासि तथानुमिता सिरते यदुचितमत्र भवत्युरलीकुरुता दुरुता पमपा कुरुते जय जय हे महिरासुरमर्दिनि रम्यकपर्दिनि शैलसुते समाधिना नियमतो नियमतोऽयमितोऽनुदिनम् पठे परमया रमया स तु सेव्यते परिजनोऽपि जनोऽपि च तम् भवे श्रीमत् शंकराचार्य विरचितम् सम्पूर्णम् महिषासुरमर्दिनि